गणेशपुराणं क्रीडाखण्डम् अध्यायं 65 फैव् क उवाच श्रुत्वा बुद्धिवजो देवो हर्षं प्राप्य जगादतां देव उवाच गच्छ युध्यस्वदैत्येन जहितं यश आप्नुहि एवमुक्त्वा सुवासांसि ददौ तस्यै विनायकः देवं ययो प्रदी वदना यसी। जडिला ला ला सा तदा दयौ दैत्यम ऋण प्रदि तवेड़शबन कंपिद भुवन वदनाय तर शक्तिगरसी जडि से जग्भ विशालाभ्यां दुनेत्राभ्यां त्यजन्ति ज्वालसञ्चयान् दहन्ती दैत्यसेनां सा ययौ पा सा च पपालः दर्शने पतिता दैत्यास्तस्या केचिद् अन्ये त्वदर्कयन् क्वाद्य गन्तव्यं क्व सुखं के जि धाहुर्धावधावदेवान्तकमृता वयं एवं कोलाहलं श्रुत्वा ययौ देवान्तकः पुरः सज्यं कृत्वा धनुशीघ्रं शरानाशीविशोभमान् ससर्ज तस्य गात्रेषु दर्शयन् पाणिलाखवम् आच्छाद्यभानं तन्मूर्ध्नं बाणजालैस्तथा विधैः सा प्रसायमहद्वक्त्रं बिसवद्विलते दैत्यस्य सर्वे रिक्ताः सदा भवन् न तस्यास्तृप्तिरभवद्राक्षसस्येव मानुषैः देवान्तकं क्षीणशक्तिम् दृष्ट्वा सा सैन्यमाययौ भक्षयामास तान् कांश्चिद्गले विनिक्षिप्य चूर्णयामास चापरान् असङ्ख्यकोटीर्दैत्यानां भक्षिदाश्चूर्णिता हताः चूर्णयन्दीपदाखाधैकांश्चिद्देवान्धकं ययौ तमुवाच तदा साधु विश मे भगगह्वरं यत्र ते शरदे दैत्य गदा इव ये भक्षिदा मृदास्ते मे जठरे जीर्णतां गदाः तद्भीत्या स पपालाशु मूत्र विद्गन्धविह्वलः यत्र यत्र प्रलीनो प्रलीनोऽभूत्तत्र तत्र साययौ बभ्रामस्वर्गलोकान् स पातालानि दिशो तदशिखां समाक्रम्य धृत्वा तं प्राक्षिपद्भगे तया सह तदो बुद्धिर्विनायकमुपाययौ ननामतां पुरस्कृत्य मदकोर्निदलोचनां पादयन्तीमुभयदस्तना कादाद्वनस्पदीन् शरद्वाराश्च कनवस्रवन्दी मन्दगामिनी निराकरोत्करालं तां दृष्ट्वा देवो विनायकः निराकृतायां तस्यां तद् गा दैत्योपदद्भुवि सोऽपि दुर्गन्धिरित्येवदूदैः सन्ध्याजितो बहिः सदु संज्ञां समासाद्य स्नात्वा तूष्णीं गृहं व्ययौ व्रीडितोऽधो मुखश्चिन्तां यादो म्लानोऽसि दुःखितः बुद्ध्यानि वेदिदासादुननाम तं विनायकं तां दृष्ट्वा जखसु बिभ्युर्मा म्लुःपे दुश्च तदा सैनं जगादाशुभक्षिदा दैत्यवाहिनी सोपि देवान्तः कः निक्षिप्य स्थापि दोभया इदानीं वसति देहि देवदयानिधे देव उवाच वञ्चयित्वा गदो दैत्यो गृहं स्वं दैत्यनाशिनि तवापि पौरुषं ज्ञातं शक्रादिभ्योऽधिकं मया विशवक्त्रं ममैवत्वं विश्रान्तिं तत्र गच्छ च अहं तं साधयिष्यामि मा चिन्तां कर्तुमर्हसि क उवाच एवमाकर्ण्य दृष्ट्वा वक्त्रं विवेश सा सुस्वापरम्रीता मधुरंगे यदारक उदेवक निवासी गणेशपुराणे बुद्धि विजयो नाम पंचष्टय ओ